षडधिकशततमः सर्गः एवमुक्त्वा तु विरते रामे वचनमर्थवत् ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलं उवाच भरतश्चित्रम् धार्मिको धार्मिकम् वचः को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दमा न त्वाम् प्रव्यथयेत् दुःखम् सम्मतश्चापि वृद्धानाम् तांश्च पृच्छसि संशयान् यथा मृतस्तथा जीवन् यथा सति तथा सती यस्यैष बुद्धिलाभः स्यात् परितप्येतकेन सह परावरज्ञो यश्च स्याद्यथा त्वम् मनुजाधिपा स एव व्यसनम् प्राप्य न विशीलितुमर्हति अमरोपमसत्त्वस्त्वम् महात्मा सत्यसङ्गरः सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव न त्वामेवङ्गुणैर्युक्तम् प्रभवा भव कोविदम् अविषह्यतमम् दुःखमासादयितुमर्हति प्रोषिते मयि यत्पापम् मात्रा मत्कारणात्कृतम् क्षुद्रया मे प्रसीदतु भवान् मम धर्मबन्धेन बद्धोऽस्मितेनेमाम्नेहमातरम् हन्वितीव्रेण दण्डेन दण्डार्हाम् पापकारिणी कथम् दशरथाज्जातः शुभाभिजनकर्मणः जानन् धर्ममधर्मम् च कुल्याम् कर्म जुगुप्सितम् गुरुः क्रियावान् वृद्धश्च राजा प्रेतः पितेति च तातम् न परिगर्षेऽहम् चेति संसदि को हि धर्मार्थयोरहीनमीदृशम् स्त्रियः प्रियचिकीर्षुः सन् भूतानि मुह्यन्तीति पुरा श्रुतिः राज्ञैवम् कुर्वता लोके प्रत्यक्षा सा तदपत्यम् मतम् लोके विपरीतमतोऽन्यथा तदपत्यम् भवानस्तु मा भवान् दुष्कृतम् पितुः अतियत्तत्कृतम् कर्म लोके धीरविगर्हितम् कैकेयीम् माम् च तातम् च सुहृदो बान्धवांश्चनः पौरजानपदान् सर्वान् स्रातुम् सर्वमिदम् भवान् क्व चारण्यम् क्व च ईदृशम् व्याहतम् कर्म न भवान् कर्तुमर्हति एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् येन शक्यम् महाप्राज्ञप्रजानाम् परिपालनम् कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् आयतिस्थम् चरेद्धर्मम् क्षत्रबन्धुरनिश्चितम् अथ क्लेशदमेव त्वम् धर्मम् धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि चतुर्नामाश्रमाणाम् हि गारहास्थ्यम् श्रेष्ठमुत्तमम् आहुर्धर्मज्ञधर्मज्ञास्तम् कथम् त्यक्तुमिच्छसि श्रुतेन बालस्थानेन जन्म नाभवतो ह्यहम् स कथम् पालयिष्यामि भूमिम् भवति तिष्ठति हीनबुद्धिगुणो बालो हीनस्थानेन चाप्यहम् भवता च विना भूतो न वर्तयितुमुत्सहे इदम् निखिलमप्यग्र्यम् राज्यम् पित्र्यमकण्टकम् अनुषाधि स्वधर्मेण धर्मद्य सह बान्धवैः इहैव त्वाभिषिञ्चन्तु सर्वाः प्रकृतयः सह ऋत्विजः स वसिष्ठाश्च मन्त्रविन्मन्त्रकोविदाः पालने व्रज विजित्यतरसा लोकान् मरुद्भिरिव वासवः ऋणानित्रीण्यपाकुर्वन् दुर्हृदः साधु निर्दहन् सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् अद्यार्यमुदिताः सन्तु सुहृदस्तेऽभिषेचने अद्य भीताः पलायन्तु दुष्प्रदास्ते रिषोदशा आक्रोशम् मम मातुश्च प्रमृज्य पुरुषर्षभा अद्य तत्र भवन्तम् च पितरम् रक्षकिल्बिषात् शिरसा त्वाभियाचेऽहम् कुरुष्व करुणाम् मयि बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः अथवा पृष्ठतः कृत्वा वनमेव भवानितः गमिष्यति गमिष्यामि भवता सार्धमप्यहम् तथा विरामो भरतेन ताम्यता प्रसाद्यमानः शिरसा महीपतिः न चैव चक्रे गमनाय सत्त्वन्मतिम् पितुस्तद्वचने प्रतिष्ठितः तदद्भुतम् स्थैर्यमवेक्ष्य राघवे समञ्जनो हर्षमवाप दुःखितः न यात्ययोऽध्यामिति दुःखितो भवत् स्थिर प्रतिज्ञत्वमवेक्ष्य हर्षितः मृत्विजो नैगम यूथवल्लभास्तथा विसञ्ज्ञाश्रुकलाश्च मातरः तथा ब्रुवाणम् भरतम् प्रतुष्टु वः प्रणम् य रामम् च ययाचिरे सः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षडधिकशततमः सर्गः